अथ त्रयोविंशम् दशकम् प्राचेतसस्तु भगवन्नपरोहि दक्षस्त्वत्सेवनम् व्यधित सर्गविवृद्धि कामः आविर्बभूविथ तदा लसदष्ट बाहुस्तस्मै वरम् ददिथ ताम् च श्रीनारदस्य वचसा तव मार्गमापुः नैकत्र वा समृषये भक्तोत्तमस्तृषिरनुग्रहमेव मेने षष्ट्याततो दुहितृभिः सृजतः कुलौघन् दौहित्रसूनुरथ तस्य स विश्वरूपः प्राक्षूरसेन विषये किल चित्रकेतुः पुत्राग्रही नृपतिरङ्गिरसः प्रभावात् लब्ध्वैकपुत्रमथ तत्र हते स पत्नी सङ्घैरमुह्यदवशस्तव माययासौ त्यक्त्वा त्वदर्चन विधौ नृपतिम् न्ययुङ्क्त च मन्त्रमपि नारदतोऽथ लब्ध्वा तोषायशेषवपुषो ननु ते तपस्यन् विद्याधराधिपतिताम् स हि सप्त रात्रे लब्ध्वाप्यकुण्ठमतिरन्व तस्मै मृणालधवलेन सहस्र रूपेण बद्धनुति प्रादुर्भवन्न चिरतो नुतिभिः प्रसन्नो दत्वात्मतत्त्वमनुगृह्यति दधाथ भक्त मौलि वर्षाणि हर्षु लमना भुवनेषु कामम् सङ्गापयन् गुणगणम् तव सङ्गातिरेकरहितो ललितम् चचार अत्यन्त सङ्ग विलयाय भवत् प्रणुन्नो नूनम् सरूप्य गिरिमाप्य महत् समाजे निशङ्कमङ्गकृत ्रमस्त्वयमयाचितशाप मोक्षो वृत्रासुरत्वमुपगम्य सुरेन्द्र योधी भक्त्यात्मतत्त्वकथनैः समरे विचित्रम् शत्रोरपि भ्रममपास्य गतः तान् प्रत्युतेन्द्र सुहृदो मरुतोऽभिलेभे दुष्टाशयेऽपि शुभदैव भवन्निषेवा ततादृशस्त्वमव माम् पवनालयेश इति त्रयोविंशम् दशकम्